मन्यमानो हि कः सत्सुपुरुषः परिकीर्तयेत् अन्यपूर्वां जातु त्वदन्यो मधुसूदन क्षमवायदिते यदि ते श्रद्धा मा वा क्रुद्धाद्वापि प्रसन्नाद्वा किम्मे त्वत्तो भविष्यति तथा ब्रुवत एवास्य भगवान मधुसूदनः मनसा चिन्तयच्चक्रं दैत्यवर्गनिषूदनम् एतस्मिन्नेव काले तु चक्रे सति उवाच भगवानुच्चैर्वाक्यं वाक्यविशारदः शृण्वन्तु मे तत्क्षमितं मया अपराधशतं क्षाम्यं मातुरस्यैव याचने दत्तं मया याचितं च तानि पूर्णानि पार्थिवाः अधुनावधयिष्यामि पश्यतां वो महीक्षिताम् यदु्रेष्ठेज से त्यपाहरछिक्रुद्धक्रेना मित्रकर्षण है